श्रीमद्भागवत्पुराणं श्रीमद्भागवत्महात्मे षष्ठोऽध्यायः कुमारा उचुः अथ ते सम्प्रवक्ष्यामः सप्ताहश्रवणे विधिं सहायैव शुभिश्चैव प्रायसाध्यो विधि स्मृतः दैवज्ञं तु समाहूय मुहूर्तं प्रेक्षमयत्नतः विवाहे यादृशं वित्तं तादृशं नवस्य नभस्य आश्विनोर्जौ च मार्गशीर्षशुचिर्नभाः तेते मासा कतारम्भे श्रोतॄणां मोक्षसूचकाः मासानां विप्रहेयानि तानि त्याज्यानि सर्वथां सहायाश्चेतरेत् यत्तत्र कर्तव्यासोद्यमास्य ये देशे देशे तथा सेयं वार्ता प्रेषा प्रयत्नतः भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः दूरे हरिकथा केचिद्दूरे चाच्युतकीर्तनाः त्रियशूद्रादयो ये च तेषां बोधो यतो भवेत् देशे देशे विरक्ताये वैष्णवा कीर्तनोत्सुकाः तेष्वेव पत्रं प्रेष्यं च तल्लेखन्नम् इति रीतमं सतां समाजो भविता सप्तरात्रं सुदुर्लभः अपूर्वरसरूपैव कथाचात्र भविष्यते श्रीभागवत पीयूषपानाय रसलं पटाः भवन्तश्च तथा शीघ्रम् आयात प्रेम नावकाशं कदाचिच्चेद् निं तथापितु तर्वथा गमनं कार्यं क्षणोऽत्रैव सदुल्लभः। दुर्लभः एवमाकारणं तेषां कर्तव्यं विनयेन च आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् तीर्थे वापि वने वापि गृहे वा श्रवणं विशालावसुधा यत्र कर्तव्यं तत्कथास्थलं शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनं गृहोपस्करं दद्धृत्य गृहकोणे निवेशयेन् अर्वाक्पञ्चाहतो यत्नाद् आस्तीर्णानि प्रमेलयेत् कर्तव्यो मण्डपः प्रोचैकदलीखण्डमण्डितः फलपुष्पादलैर्विश्वं वितानेन विराजितः चतुर्ध्यक्षो ध्वजारोपो बहुसम्पद्विराजितः ऊर्ध्वं सप्तैव लोकाश्च कल्पनीया सविस्तरं तेषु विप्राविरक्ताश्चापनीया प्रबोध्य च पूर्वं तेषामासनानि कर्तव्यानि यथोत्तरम् वक्तश्चापि तदादिभ्यम् आसनं परिकल्पयेत् उन्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तथा प्राङ्मुखश्चेद्भवेद्वक्ता श्रोता, श्रोता चोन्मुखस्तथा अथवा परद्विज्ञेया पूज्यपूजकं मध्यतः श्रोतृणामागमे प्रोक्ता देशकालादिको विदैह विरक्तो वैषमो विप्रो वेदशास्त्रविशुद्धिक्रीं दृष्टान्तकुशलो धीरो वक्ता कार्योऽतिनिस्पृह अनेकधर्मविभ्रान्ताः श्रयिणाः पाखण्डवादिनः सुखशास्त्रकं सुन्थोच्चारे त्याज्यास्ते यदि पण्डिताः वक्तो पार्श्वे सहायार्थम् अन्यः स्थाप्य तथाविधः पण्डितशंसि यच्छेत्तालोकबोधनतत्परः वक्त्राच्छौरं प्रकर्तव्यं दीनादर्वाङ्व्रताप्दये अरुणोदये सौनिवर्त्य शोचं स्थानं समाचरेद् नित्यं सङ्क्षेपतः कृत्वा सन्ध्याद्यं संप्रयत्नतः तथा विघ्नविघाताय गणनाथं प्रपूजयेत् पितृन् सन्तर्पसिद्ध्यर्थं त्रायश्चित्तं समाचरेत् मण्डलं च प्रकर्तव्यं तत्र हरिस्तथा कृष्णबुद्धस्य मन्त्रेण चरेत् पूजाविधिं क्रमात् तदक्षिणनमस्कारान् पूजान्ते स्तुतिमाचरेत् संसारसागरे मग्नं दीनं मां करुणानिधे कर्ममोहगृहीताङ्गं मामुद्धरभवाणवात् श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः कर्तव्या विधिना प्रीत्या समन्विता। ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् स्तुते प्रसन्नचित्तेन कर्तव्या केवलं तदा श्रीमद्भागवताक्षोऽयं प्रत्यक्षकृष्ण एव हि सकृतोऽमयानाथ मुक्त्यर्थं भवसागरे मनोरथो मदीयोऽयं सफलः सर्वता तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् शम्भुस्य वस्त्रभूषाभिः पूजान्ते तं च संस्तपयेत् शुकरूपप्रबोधज्ञ सर्वशास्त्रविशारदम् एतत्कथाप्रकाशेन मदज्ञानं विनाशय तदग्रे निमः पश्चात्कर्तव्यश्रेयसे मुदाम् सप्तरात्रं यथाशक्त्या धारणीय स एव हि वर्णं पञ्चविप्राणां तथा भङ्गतञ्जं तैर्हरेजार्प्यं द्वादशाक्षरविद्यया ब्राह्मणानुवेष्माश्चान्या तथा कीर्तनकारिणः नत्वा सम्पूज्य दत्ताज्ञः स्वयमासनमाभिषेत् लोकवित्तधनागारपुत्रचिन्तां यदस्य च कथाचित्तशुद्धमती सलभेन् फलमुत्तमम् आश्रर्योदयमारभ्य सार्धत्रिप्रहरान्तकं वाचने या कथा सम्यग् धीरकण्ठं सुधीमता कथा विरामः कर्तव्यो मध्याह्ने घटिकाद्वयम् तत्कथामनुकार्यं वै कीर्तनं वैष्णवैस्तदां मलमुद्मुद्रजयार्थं हि लघ्वाहारसुखावह हविष्यान्नेन कर्तव्यो हेकवारं कथार्थिनाम् उपोष्य सप्तरात्रं वै शक्तिस्थी शृणुयात्तदां घृतपानं पयपानं कृत्वा वै शृणुया सुखम् फलाहारेण वा भाव्यम् एकभुक्तेन वा पुनः सुखसाध्यं भवेद्यत्तु कर्तव्यं श्रवणाय तत् भोजनं तु वरं मन्ये कथाश्रवणकारकं लोपवासो वरः प्रोक्तकथा विघ्नकरो यदि